अथ तृतीयाष्टके द्वितीयः प्रश्नः प्रारम्भः सोमः तस्य वर्णमच्छिद्यत तत्पर्णाभव तत्पर्णस्य वर्णत्वम् ब्रह्म वैपर्णः यत्पन्नशाखया वत्सा न करोति ब्रह्मणे येना नपाकरोति गायित्र वै पन्नः गायित्रात्पशवः तस्मात् त्रीणि त्रीणि पन्नस्य मलाशानिपदागाविक्री यत्पन्नशाखयागाः प्रार्पयति स्वय एव देवतया प्रार्पयति यङ्कामये तापृषः स्यादिति अपन्नान्तस्मै दुष्काग्रामाहरेत परुषुरेव भवति यङ्कामयेतपुमान् स्यादिति गोपर्णान्दस्मै भो शाखामाहरेद् प्राचीमाहरेदोकमीत्यादि वायवस्थेत्याः वायुर्वान्तरिक्षस्याध्यक्षाः अन्तरिक्षदेवत्याः खलु वै पशवः वायव एवे परिददाति तदा वस्थे, वस्थे एना नेतदा दे। करोति यदा वायुवस्यते प्रापयत् श्रेष्ठतमाय कर्म यज्ञा हि श्रेष्ठतमम् कर्म तस्मादेवमाह आप्यायध्वयादेव भागमित्याह वत्सेभ्यश्च वा एतानुष्येभ्यश्चाप्यान्द्रायाप्य ऊर्जस्वदेहपयस्वदीर्त्याः ऊर्जर्पयः सम्भरन्ति प्रजाक्ष्मा इत्याह प्रजापरिवनकृत्याः स्याद् बह्वीरित्याः तवा एवास्मिन् बह्वीकरोति यजमानस्य पशोन् आधीत्याः शूलाङ्गोपीठाय तस्मात् सायम् पशुभगवधमावर्तन्ते अनधः सादि यदि गर्भानाम् धृत्या अप्रपादाय तस्माद्गर्भानामप्रपादुकाः उपरि वनदधादि उपरि वैर्वर्गो लोकः स्वर्गस्य लोकस्य समष्टिप्रसवैत्यश्वपरमादत्तः अश्विनो हि देवानाम् आस्ताम्भ्यामित्याहत्यैः ओषधेः पर्वशो वेद नैनाः सहिनस्ति प्रिया दर्वा ओषधेः पर्वश वेदा एनानकिनस्ति अश्वपर्श्वा बहिरच्छैः राजाभिः मानवीताः धाय देवानाम् परिशोधीत्याहेवानाम् परिशोधम् करिष्यामीति एवमेव तत् देवेभ्य प्रति परिहृतादि आत्मनो हिसायि यावम्बाम् परदिशेत् यत्तेषाम् चिपुरुषात् एकम् परिशेत् यज्ञस्यानिरेखायद्धावा ओषदयः परिहृत्याः देवेभ्य एवेन करोति मा त्वार्यविःसायि स्ते सव्यासम्भृज स्वाहेत्याः प्रतिष्ठति अयुङ्गायुङ्गान् जाय प्रजा सम्भरामीत्या ब्रह्मणेवैरत्सम्भरति अदित्येदास्नातीत्याहम् वादिः अस्या एवैरस्नाहम् इन्द्राण्ये सन्नहनमित्याह इन्द्राणी वाय तस्मात्स्नावसन्तः प्रजायान्ते पोषातेत्याः पुष्टिमेव यजमाने दधाति तदेमा स्नादित्याहायुपुंसायि ृहस्पति ब्रह्मणैवेन धरति कुर्वन्धरिक्षमन् गृहीत्याै देवादेव गमयति अनधः साधयति कृपानां नद्यः प्रवादाय तस्मा कृपाः पूजनां अप्प्रवादाः उभरी वरदधाति उभरी वैसुरं लोकाः वरकैत्से लोकाः तिरवष्टि पूर्वेदं अमृतं रदि इतिमेवारत्ने कृतं भवसिरी प्रजापदेर यत्मिदृदा तस्योखे आश्रिणुजेतां विज्ञवे प्रजापदे एषा अन्नं योखे भवता यज्ञ सेवदके वरदात् प्रश्रं जाय चन्द खङ्गैभ्यै गम्ने देव इच्छायै इच्छाह देवद्याया एवैनानुसन्धति मानकृष्वर्मासीत्याः अन्धरिक्षं वै मानकृष्णोकानां दिवश्चा पृथिव्या तस्मादेवमाह विश्वधाया अथ परमेण धाम्यः वृष्टिर्वै विश्वधायाः वृष्टिमेवावृन्धेनाम् पवित्रमसीत्याः वसवा एतद्भा विधेयम् तत्पवित्रम् तेभ्य एवैनत्करोति शतधारमो सहस्रधारमित्याः प्राणेष्वैवायुधात्वाय त्वत्पलाशशाखायान्दर्भमयम् भवति क्रुवद्वयि प्राणः त्रिवदमेव प्राणम् मध्यतो यजमाने दधादि सौम्यपर्णस्य यो दत्वाय दर्भाः य तस्मादेवो सर्वोको हृतो स्कन्धाय नामाग्नि तस्य विषोभागेयम् अग्नये बृहदेन गायेत्याः नाकमेवाहायन्नास्ते ध्यारयन्ति लोकान् असो नाम गृह्णादिकेवायुश्चेदात्रे पुण्यमाशास्ते सर्वमेवैना एतदवस्तौति तस्मात्रादि मानुष्यवृत्तिः देवाःराः अपरमिदमेवावृन्ते तदारपात्रेण दुष्यात् अनिवन्ते दुष्यात् यादयाम्नाहमिषाय ीडाशोयामोऽस्तीति श्रोत्र एव न श्रोत्रः अहविरेवत्याहो यच्छोत्रोद्धीरि अग्निहात्रमेव न दुष्यात् श्रोत्रः अध्यमात्फुरन्ति तदा खल्वी पवित्रमध्येति असदध्यविरिप्रत्यमदावरीरित्याह एवम् सा आर्यम् अ ज्ञा एवम् करोति विष्णाहव्यम्प्रमाधाय लोकस्य तस्माद्गर्भा अवप्रणयति श्रद्धा वा आभ श्रद्धामेवारभ्य प्रणयप्रचलति अवप्रणयति यज्ञो वा आव यज्ञमेवारभ्यप्रचलति अवप्रणयति वज्रो वा आवज्यमेव अवप्रणयति अभूवै देवानाम् प्रियुधाम देवानामेव प्रियुन्धाम प्रणयप्रचलति अवप्रणयति आभोवै सर्वा देवता ेव्यानृहे य ेन अश्विनो हि देवानामद्धर्यो आसाम्भ्यामित्याहयति अग्नयजिष्टम्पपामीत्याह अग्नय एवमाप्ति अपरिदमेवावृन्धे स एवमेवानुपूर्वीवम् देवानाम्सहेत्याहव्यावृत्ती अपरेण हि स्वरभिविक्षेशं वैश्वानिरञ्ज्योतिरित्याः स्वरैवाभिवर्षिरवेश्वानिरञ्ज्योतिः द्या वा पृथिवी अभिषगृहीतवे भेताम् गृह्णन्ताम् दुर्याद्या वा पृथिव्योरित्याः ना एवमेत्या ताभिरेवैना उत्पन्नादि वाभ्यामुत्पन्नादि वाद्यमानप्रतिष्ठति देवो वः सवितोत्पुनात्वित्याः सवितृप्रसोद एवै नावत्पन्नादि अक्षित्रेण पवित्रेणेत्याहो वा आदित्योक्षित्रम् तेनैवैना उत्पन्नादिरश्मिरित्याह प्राणावासवः प्राणारश्म्यः प्राणैरेव प्राणान् सम्पृणक्ति सावित्रिच्च सवितृप्रसोदम् ये कर्मा सजति स्य कर्म भवति अोगामीर्ग्रेभो अग्रे गो इत्याहमेवास मेधन्महिमानम् व्याधिष्टे यज्ञपदमित्याह अग्रे एव यज्ञम् अग्रे यज्ञपदिम् युष्मानन्द्रोदवृत्तदौर्ये योगमिन्द्रणेत्रम् व्रदूर्य इत्याह वर्त्रगो हनुष्यन् इन्द्र आवो वग्रे आबोहेन्द्रम् वग्रेवानम् व्याधिष्ठे ेव्याया इत्याह देवयज्ञाया एव अवधौ धारादि इत्याह रक्षसा अवहती ीवेत्याेभ्यो निरायता कृष्णो रूपम् धृत्वाकृष्णादिने हविर वहन्ति यज्ञादेव तद्यज्ञम् प्रयुङ्गे अविशोस्कन्दाय अधिश्रवणमधवान्सपत्यमित्याह अधिश्रवणमेवेनत् करोति यत्त्वाया अग्नेस्तनोसीत्या अग्नेर्वा एषा तनोः यदोषधयः यदा हि प्रजापोषधीनामस्मन्ति अथवा चन्ते देवमीदेत्वा गृह्णामीत्याह देवताभिरेवेदसमर्थयति अतिसत्यमित्याह रावाणमेवेणति स इदम् एव देवानागमोहविष्कृतः प्रविष्टासीत् यावन्दायज्ञा यथा यावन्तास्य प्रातिभवन्ति वीर्यम् श्रेष्ठयेषाम् भवति वर्षवृद्धा वर्षवृद्धम् वेत्रित्याः वर्षवृद्धा वा वोषदयः वर्षवृद्धायुषी वा समर्थ्ये ैत्याः रक्षसा रक्षसाम् अभौवस्पृशतिमे धत्वाय आयुर्वः पवित्रम् वै वायुः पुनात्येवै नाम अन्तरिक्षादिभवा एते प्रस्सन्दन्ति येषुत्वा देवो देवोपस्वृह्णा कृत्वा पृथिवीरे कृत्याः प्रतिष्ठति पुरस्ताय शुभौ समुपतिष्ठन्ते कृष्णारूकम् धृत्वायीसहास्ताम् या, या मातृता teenager patya prithatwa dhaskammanar veda yat Vinaya Jagamra prithivhよr vidhruti javanari parhmati prithatwa prhed proto vet STE Help Take racers आओदो प्रति भ्रत्षात नर्डरेया केकरें तीमर्ण फ्रैयर्ण केल्धपा उसाल्दे warm घृन्य्भल्तो प्रति आओध अओधा मिनों 11 Umarójidisad. Pan6678, Pan679 Panadernevaj 돼amment Vrtja repaaevaadsthaavaata vrtjaطha vrpm orazuri dhach comunshyak P침vascom vrtvaadshyaj. त्यादिहति अग्निवधाति अस्मिन्नेव लोके द्योदधत्ते अङ्गारमिति वर्तते अन्तरिक्ष एव द्योदधत्ते आदित्यस्मा इमे लोका भवन्ति एवम् एवैतेन दृग्हति कर्त्रमस्यन्तरिक्षम्हेत्याह अन्तरिक्षमेवैतेन दिवमेवैतेन दृग्हति धर्मा द्विषो दृङ्त्याह ैते लोकान् दृङ्हनि दृंहन्ते स्मा इमे लो त्रीण्यग्रे कपालान्यपदधातिक्रे कपालमुपदधाति एकम् वाग्रे कपालम् पुरुषस्य सम्भवति अधत्रे अध त्रीणि अथ चत्वारि अथाशो अस्मादष्टा कपालम् पुरुषस्य शिरः तदेवम् कपालाः अन्यपदधाति यज्ञोऽ प्रजापति यदेकादश दृष्टाद यद्वादश त्रिगत्यानिशो ेवोपरिष्पात्प्रतिष्ठति देवस्वत्वादृत्याः प्रसोति अश्विनो आत्माभ्यामित्याह अश्विनो हि देवानाम् धर्यो आस्ताम्भ्यामित्याह सम्भवामित्याह तथा ओषधयो एताः विसृज्य आर्महयन्ति ै मख तस्य एच्छिरः तस्मादेवमाह धर्मोधाति फुलम् गृह्णेश्वेत्याह सर्वमेवेन पुंसतनम् करोति तथा परानीयपरिमास्ति अस्मात् पुजामा पुंसछन्नम् धर्मो वा एषोषाः अधायते धर्मासे प्रवर्तते यत् पुराणासह तदैईश्वरो हिमालागुणस्थः पदमहः पर्यग्नि करोति वषमेवै नमकार शान्ख्यप्रन्हाया यत् पर्यग्नि करोति विद्याधिज्ञा असुरक्षणां महत्ति अन्तरतको रक्षो अन्तरदवालाधिज्ञा रक्षदा वन्दयेति प्रोणादिमादिसुत कुमरक्षा अगस्तिभयमन्त इवरागो नामा वृक्षो स एव अस्माकं वृक्षो दसवन् देवस्त्वा सविताश्रमयग्नित्याः प्रसोद एवेन क्लश्रदयदिनागीत्याः रक्षसानुवहति अग्निस्त्यबादिदाित्याह इतिहाय भिभाषयति तस्मात् के शैश्वरश्च भवति एवम् वेद ै पुरोडाच प्रजामभि वासयतिः समर्थयति देवा वै हविर्भृत्वा ब्रुवन् कस्मिन् इदम् रक्ष्याम इति सोप्लवी ते नमोष्यामि यस्मिन् अस्मा देव तदात्म्यानामात्मभ्योदायन्द्यानामा ृत्ते सूर्यावदतिषो प्रयुक्ते प्रवृत्तो वीरणि वीरः ब्रह्मणि तद्ब्रह्म नन्नातिवदान्ती उल्मुखेनाभिगृह्णादित्वाय श्रुतकामा इभिः देवाः त्याह लोकमेवास्महिमानम् व्याष्टे वायुरसिक्मदे वायो तेज एवास्मिन् योधि नमः प्रहसिदा शतधेन यज्ञनमः देवा अग्निवृष्यन्ती देवि सवरिदेव भ्यमनेद सामेध्य भवद अथ इन्द्रो रक्तमहनम तस्किलोहिं पृथ्वीवे मनुक्धावद सामेध्य भवद प्रथमेदेव इन्द्रनीत्याह मेध्यमेविरा आनद्य वैतनेन करोति औषध्यास्त मोर्यमाय कृञ्जपित्वाह औरुदीनामे कृञ्जारी पलंगच्छ गोस्थानमित्याह चन्दाकं सर्वे प्रयोगस्थानः सन्देगो सेवस प्रीयं प्रतिंगोस्तर्ङ्गोधी प्रसुतेर्चूर्धा पृष्ठं वैज्ञो पृष्ठेवावृन्धे प्रधानदेवसर्वजप्रस्या अम्बरावदित्ताः तुवावपुरुषो यन्जयवद्रेष्टि यस्तेनदृष्टि तवभवद्धारवस्य अम्बरावदसिदेनवासे गीः लोहस्मान् दृष्टिं च वयम् विश्वस्तमुदोभा मोहित्याहानं वृक्ते अध्रुवमेना कृतसि तत्रज्ञामकम् उक्तो चेद तं देवा अपहवोनरः प्रज्ञाय गृवप्रज्ञया अपादानं रृग्वेदो वाकनो अपहवोनरः पुष्यम्याः गृजनाः काद्रुज्ञेव अपज्ञया अवन्दि तेमन््यन्ता तवमवा इमेक्तृशदीदी तवदरस्ते यत्मवास काद्रुवपरिवादनता काद्रुज्ञोबा अरः अदरस्ते यत्मवास काद्रुवेदाः काद्रुज्ञेव मेव दिवः परिवागते स्तमैजहरति न्ति असुराणां वासीत् यावदासीनप्राप्यति तावद्देवानाम् हे देवा ैत्याः मेध्यम् मेध्यम् मेध्यम् ैवनन्ति ङ्गलेन्द्रन्दन् तस्माचतुङ्गलम् खेयाः चतुरङ्गलम् खनति चतुरम्बलेश्व एतावदेवै पृथिवी यावभस्य आत्म उत्तरं परिग्राहं परिगृह्णाति एतत्करो त्रस्या मेरिदी कान्दिरासोऽनुसिन्धित्या अनुछाति प्रोक्षनीराधारया विद्धा बहिरपदार्या श्रवञ्च सुजस्तकर्मृठे अग्ने गोसन्नस्य आज्ञेनो देहिद्य अनुपूर्वजये प्रोक्षनीराधारयति अबवय रक्षोक्खी अक्षतरामहति सद्यवत्मन् सारगदे यज्ञस्रन्दते आवाजहासिदो देइवला यदावदीर्रामस्मनोदाभासं यवति प्रोक्षनीरवे धराजस्ये उत्तरे यत्प्रवृष्ट्यति यथोपथाय वृष्ट्यञ्जेवम् हस्तापवने नित्ते आत्मानमेव पवयदे भ्रातृर्यङ्गयुक्ते यज्ञस्य विधत्वाय अथो पुरोचमेवैतान् दधाति उत्तरस्य कर्मो नख्याति न पुरस्तात्प्रत्यगुपसाधयेत् यत्पुरस्तात्प्रत्यगुपसाधयेत् अन्यत्वाहुतिपथाम् प्रतिपादयेत् प्रजाभिः परार्थेयात वृहिषाः आप्रजनाः आमप्रजननं पश्चात् प्रागवसादेति आवाजि प्रत्यनेत्तम प्रतिवादेति सम्प्रत्येव वृहिषाः आप्रजनानां प्रजननमवयति अक्षणं विद्धं उत्तरं वृहिहे आप्नायत्ना प्रजावरिहे प्रजाश्रयात् अमरोत्तरदरायते त्वमेदमवनीयः यथादेवददेवै कृष्टावयति प्रजाश्रद्धेत्पन्नया पशुपर्णीयमानः इति तृतीयाष्टे द्वितय प्रश्न स